गणेशपुराणं क्रीडाखण्डम् अध्यायं सिक्स्टीवन् विनायक उवाच नेदृश्यो दृष्टपूर्वो मे बली च वीर्यवत्तरः इदानीं पौरुषं पश्य मम बालस्य चेष्टितम् इत्युक्त्वा पुनरेवासौ बाणं तूणादकर्षयद आकर्णम् धनुराकृष्य प्राक्षिपत्तम् नरान्तकम् प्रकाशयन् व्योमतलम् पादयन् वृक्षसञ्चयम् आन्दोलयन्निवययौ पुष्पवत्तम् नरान्तकम् स बाह्णोच्चेदयत्तस्य चरणौ सपपातः अर्धकाये निपतिते दौत्ये गर्जद्विनायकः चरणौ व्योममार्गेण भ्रमन्दौ पतितौ गृहे देवान्धकस्य महदि चूर्णयन्तौ बहूञ्जनान् अर्धकायः दैत्येन्द्रो मुखं कृत्वा भयानकम् अभ्यधावेनासौ ग्रसन्नीव जगत्र तथाश्य मयया संबूवधु विनायक निकड़े बभाषे भेद्य दैत्यराया यशिद मह्यम पौरुषं का चेचे चे तवा पश्य मे पौरषं तथा श्रुवा वाक्यं पुनस्तजा सौ विनायक शरवृष्टि पुरा दैत्यपुंगवे। सोकितां भक्षया किता भक्षायास्यादा महाबल तद एकं महाबाणमभिमन्त्र्य विनायकः अग्नितुण्डं रुक्मपुङ्खं गर्जमानं भयानकम् आकर्णं ज्यामपाकृष्य तत्याजदैत्यमस्तके स ययौ वायुवेगेन धारयन्निव पर्वदान् संहरन् पक्षिसंखादान् पादयन् वृक्षसञ्जयान् श्रुत्वा तदीयनिनदं ययुः सेनादिशोदश पपाददैत्यकण्ठे स सा। गिरिसानौ यथा ययौ न्यपतत् परिकूजत्पिदुर्गेः भयानकम् पुनरन्यच्चिरोऽस्या भूदच्छिन्नमिव पूर्वत ततः कोपेन दैत्योकिचक्रेष्वेडितमुच्चकैः बिभ्युः धरवृष्टिं पुनः रौद्रां चक्रे तस्मिन् विनायके स सर्वं बाणवृष्ट्यैव मध्ये चिच्छेदलाखवाद अहोरात्रमभूद्युद्धं गिरिबाणमयं नवम् परिस्रामदेवोऽपि सोऽपि दैत्यो महाबलः चिन्तामवापमहतीं प्रज्वाल च तेजसा तदो जग्राहपरशुं ज्वालामाला समाकुलं तोलयामासबलवांशम्बे धरणी तदा विमानगासुराः सर्वे युद्धं द्रष्टुमुपागदाः चकम्पिरे तदा शेषो विभाय च रसातले अवासृज दैत्यपदो सदस्याशुशिरोहरद शिरो, शिरो मुकुटकुण्डलम् पुनस्तत्पादयामास शिरक्रुद्धो विनायकः पुनरन्यदभूतस्य चिन्ने तस्मिन् पुनः पुनः एवं शतसहस्राणि शिरांसि मृदौ दैत्यस्य कारणं मोघयामास सहसा माययातं नरान्तकं शिवस्य वरदानेन गर्विदं बलवत्तरं नाज्ञासीच्च तदा दैत्यो परं चात्मानमेव च क्षणा च भासदे रात्रिः क्षणा च दिवमेव च च भासदे स्वर्गं पृथ्वी पादालमेव च जागरश्च सुषुप्तिश्चतुरीया स्वप्न एव च विनायकोऽपि देवो वा नारी वा पुरुषोऽपि वा गुहयको वा धसिद्धो वा यक्षो राक्षस स्वकीयो वा परो वा, वा जननी तु वा निर्जीवो वा सजीवो वा भ्रमादेवमन्यत चिन्तां च परमापतर्कयामास चेदसि एवं मे दुवरा दत्ता शिवेन शूलधारिणा अयं च समयप्राप्तः प्रायो मृत्युर्भविष्यति क उवाच एवं याफ चिन्तयदे पुरस्तावद् ददर्शसः विनायकम् विराड्रूपम् गगनोर्ध्वगमस्तकम् पादालव्याप्तचरणम् दिक्श्रोत्रम् वृक्षरोमकम् भ्रमद्ब्रह्माण्डरोमाञ्चपयोऽङ्कृश्रमबिन्दुकं नकाग्रेयस्य देवानां भान्दितृंशत्रिकोडयः उदरे भ्रान्त्येकदशे भुवनानि च दुर्दश तदो विनायको दैत्यं मर्दयामास पादाङ्कुष्टनखाग्रेण मत्कुणं बालको यथा तदो देवाश्च मुनयो जयशब्दै मुहुर्मुहुः तुष्टुवुर्मुमुचुः पुष्पवृष्टिं भक्त्या प्रहर्षिताः अन्तर्हिते तु वैराटे रूपे गाद्धरणी विभुम् न त्वा प्रोवाजदेवेशमर्धभारो हृदो मम पूर्णे कृते परा प्रीतिर्मे स्यात् तस्मात् सदा कुरु तस्यामन्दर्हितायां तु काशीराजः पुपूजतम् उवाच च प्रसन्नात्मा विनया नृपः अत्याश्चर्यं विभो दृष्टं मनो वाण्योरगोचरम् अवतीर्णोऽसि भूभारं हर्तुं तच्च कृतं त्वया त्रयस्त्रिंशत्कोटिदेवैरवध्योऽयं हदो यतः अधिपुण्येन द्रष्टुं ते विराड्रूपं सुरेश्वर क उवाच एवं ब्रुवधिराजेन्द्र पौराः सर्वे ब्रुवंस्तदा धन्योऽसि बालभावेन सर्वान्नो भ्रामयस्य हो यस्य प्रथयितुं सर्वं कृतमे दद्विभो पुपूजुश्च महाभक्या प्रार्थयन्निदिदं विभुं भक्तिं ते देहिनो देवस्ववियोगं च मा कुरु ततो राजा च दे लोकात् ददोर्दानान्यनेकशः ब्राह्मणान् प्रार्थयामासुरेवमेव जयोऽस्तु नः उपायनानि च तदा ददूराज्ञे परस्परम् इति श्रीगणेशपुराणे क्रीडाखण्डे दैत्यदमनं विराड दर्शनं नामैकषष्टितमो ध्यायः ॐ